अथ द्वाविंशत्यधिकशततमः सर्गः उपस्थितम् तु तम् कृत्वा पुष्पकम् पुष्पभूषितम् अविदूरे स्थितो राममित्युवाच विभीषणः स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः अब्रवीत्वरयोपेतः किम् विमृश्य राघवो वाक्यद स्नेहपुरस्कृतकर्माण सर्वकसा रत्न विविध सूज्यता सह मेस्त निर्जिताक्षसेरा त्यक्ता संग्रा निवर्तितकर्माण वनौकसा धनरत्नप्रदानैश्च कर्मैषाम् सफलम् कुरु एवम् सम्मानिताश्चैते नन्द्यमाना यथा त्वया भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः त्यागिनम् सङ्ग्रहीतारम् सानुक्रोशम् जितेन्द्रियम् सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते हीनम् सेनात्यजति संविघ्ना नृपतिम् नरेश्वरा एव मुक्तस्तु रामेण वाणरांस्तान् विभीषणः रत्नार्थसंविभागेण सर्वानेवाभ्यपूजयत् ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान् आरुरोहतदारामस्तद्विमानमनुत्तमम् अङ्केनादाय वैदेहीम् लज्जमानाम् मनस्विनीम् लक्ष्मणेन सहभ्रात्रा भ्रात्रा विक्रान्तेन धनुष्मता अब्रवीत्स विमानस्थः पूजयन् सर्ववानरान् सुग्रीवम् च महावीर्यम् काकुत्स्थः स विभीषणम् मित्रकार्यम् कृतमिदम् भवद्भिर्वानरृषभाः अनुज्ञाता मया सर्वे यथेष्टम् प्रति गच्छत यत्तु कार्यम् वयस्येन स्निग्धेन च हितेन च चा। कृतम् सुग्रीव तत्सर्वम् भवता धर्मभीरुणा किष्किन्धाम् प्रति याह्याशुस्वसैन्येनाभिसंवृतः स्वराज्ये वस लङ्कायाम् मया दत्ते विभीषणा न त्वाम् दर्शयितुम् अपि दिवौकसः अयोध्याम् प्रतियास्यामि यास्यामि राजधानीम् पितुर्मम अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामिवः एवमुक्तास्तु रामेण हरीन्द्राहरयस्तथा ऊचः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः अयोध्याम् गन्तुमिच्छामः सर्वान्नयत नो भवान् उद्युक्ता विचरिष्यामो वनान्यपवनानि च दृष्ट्वा त्वामभिषेकार्द्रम् कौसल्यामभिवाद्य च अचिरादागमिष्यामः स्वगृहा नृपसप्तमा एवमुक्तस्तु धर्मात्मा वानरैः स विभीषणैः अब्रवीद्वानरान् रामः सुग्रीव विभीषणान् प्रियात् प्रियतरम् लब्धम् यदहंस सुहृज्जनः सर्वैर्भवद्भिः सहितः लप्स्ये पुरीम् गतः क्षिप्रमारोह सुग्रीव विमानम् सह वानरैः त्वमप्यारोह सामात्यो राक्षसेन्द्रविभीषण ततः स पुष्पकम् दिव्यम् सुग्रीवः स हवानरैः आरुरोहमुदायुक्तः विभीषणः तेष्वारूढेषु सर्वेषु कौबेरम् परमासनम् राघवेणाभ्यनुज्ञातमुत्पपातविहायसम् खगतेन विमानेन हंसयुक्तेन भास्वत प्रहृष्टश्च प्रतीतश्च बभौ रामः ते सर्वे बाणरक्षाश्च राक्षसाश्च महाबलाः यथा सुखमसंबाधं दिव्ये तस्मिन्नुपाविशन् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे द्वाविंशत्यधिकशततमः सर्गः